नारदपुराणम् पूर्वार्धम् अध्यायम् एय्टि फैव् सनत्कुमार उवाच वाग्देवतावतार्योन्यकालिकेदि प्रकीर्तिता तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणा सृष्टिक्रियान्विता शान्तिर्विद्वाढ्या च त्रिधा पुनः अरुणाक्ष्या दीपिका च बिन्दुयुक्ता द्विधा तदः मायाद्वयं ततः पश्चाद् दक्षिणे कालिके पदं पुनश्च सप्तबीजानि स्वाहान्तोऽयमनूत्तमः भैरवोस्य ऋषिश्चन्द उष्णिकालीदुदेवता बीजं माया दीर्घ वर्त्म शक्तिरुक्ता मुनीश्वर षड् दीर्धाढ्ये बीजेन विद्याया अङ्गमेजिदम् मातृकार्णान् दश भुजयो पदोः विन्यस्य कुर्यान् कुर्यान्मूलमन्त्रेण साधकः शिरकृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ृङ्मष्टकां मुक्तकेशां पितृवनस्थितां सर्वालङ्कृतवर्णां च श्यामां गीं कालिकां स्मरेद एवं ज्ञात्वा जपे लक्षं जिहुयादयुधं तदः प्रसूनैकरविरोद्धैः पूजायन्द्रमधोच्यते विलिख्य पूर्वं षट्कोणं त्रिकोणत्रदयं ततः पद्मष्टदलं बाह्ये भूपुरं तत्र पूजयेद जया च विजया चापि अजिता चा पराजिता नित्या विलासिनी वापि दोग्ध्यखोरा च मङ्गला पीठस्य शक्तयो मायात्मने हृत्पीठमन्त्रक शिवरूप शपस्थां च शिवाभिर् दिक्षुवेष्टितां महाकालरदासक्तां ध्यात्वाङ्गान्यर्चयेत् पुराक्तानीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीं विप्रथितां च षट्कोणे नवकोणे तदोर्चयेद् उग्रामुष्णप्रभां दीप्तां मीलाधानां बलाकिकां मात्रां मुद्रां तथामित्रां पूज्य पत्रेषु मातरः पाद्मस्यास्य सुयत्नेन भ्रामीनारायणीत्यपि माहेश्वरी च चा चामुण्डा कौमारी चापराजिता वाराही नारसिंहा च पुनरेतास्तु भूपुरे भैरवीमहदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् भीमोन्मत्तादिकां चापि वशीकरणभैरवीं मोहनाद्यां समाराध्य चक्रादिन्यायुधान्यपि एवमाराधिता काली सिद्धा भवति मन्त्रिणां तदप्रयोगान् गुर्वेदान् महाभैरवभाषितान् आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् त्रीणां प्रहारं निन्दां च कौडिल्यं वा प्रियं वजः आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेद सुदृशो मदना वासं पश्यन्य प्रजापेन्मनुम् अयुधं सोचिरादेव वाक्पदे समिधामियाद दिगम्बरो मुक्तकेशश्मशानस्थोद्धियामिनि जभेद्यो युदमेतस्य भवेयुः सर्वसिद्धयः शिवस्य हृदये स्थित्वा पुष्प अर्कपुष्पसहस्रेणाभ्यक्रेण स्वीयरेदसा देवीं यपूजयद्भक्त्या जपन्ने कैकशोमनं सोचरेणैव कालेन धरणी प्रभूतां व्रजेद रजकीर्णं भगं नाज्या ध्यायन्योह्ययुधं जपेद स कवित्वेन रम्यण जनान्मोहयदि ध्रुवं त्रिपञ्चारे महापीठे शिवस्य कृति संस्थितां महाकालेन देवेन मारयुद्धं प्रकुर्वतीं तां ध्यायन् स्मेरवदनां विदधत् स्वयं जपे सहस्रमपि यः स शङ्करसमो अस्थि लोम तो युत मजारमेश मखिष् बलम यस्त समर्चए लक्ष्मी वश्श्युस्तव विद्याल सचि सुखमेधे यो हविश्याशनरदो दिवा देवीं स्मरन् जपेद नक्तं निधुवनसक्तो लक्षं स्वस्याद्धरपदिः रक्ताम्भोजैर्भुनेन्मन्द्री धनैर्जयति वित्तपं बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः असृजी महिषादीनाम् कालिकाम् यस्तु तर्पयेद् तस्य स्युरचिरादेव परस्तात् सर्वसिद्धयः यो लक्षम् प्रचपेन्मन्त्रम् शवमारुह्यमन्त्रविद तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः तेनाश्वमेधप्रमुखैर्या गौरिष्टं सुजन्मना दत्तम् दानं तपस्तप्तम् उपास्ते यस्तुपाधिकां ब्रह्मा विष्णु विष्णुशिवो गौरी लक्ष्मीर्गणपतिरविः पूजिता सकला देवायकालीं पूजयेत्सदा अधपरसरस्वत्याख्यवतारो निगद्यते यां निषेव्य नरलोके कृतार्थास्युर्नसंशयः आप्यायिनी चंद्रयुक्ता चन्द्रयुक्ता मायाजवदनान्तरे सकामिका क्रूधा शान्तिश्चन्द्रालङ्कृतमस्तकः दीपिका सासनचन्द्रयुगस्त्रम् मनुरीरिदः मुनिरक्षोभ्य उद्दिष्टश्चन्द्रस्तु बृहदी मदम् ताराक्यदेवतबीजम् द्वितीयं च चतुर्थकं चक्तिषड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनं षोडान्यासं तद कुर्या ताराया सर्वसिद्धिदं श्रीखण्डादीन्यस्ये दृद्रान् मादृकावर्णपूर्वकान् मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् चतुर्धीन चतुर्धीनमसा युक्तान् प्रथमो न्यास ईरिदः शवपीडसमसीनां नीलकान्तिं त्रिलोचनाम् अर्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्य सेद द्वितीयेदु ग्रहन्यासं कुर्यातां समनुस्मरन् त्रिबीजस्वरपूर्वं तु रक्तसूर्यं हृदिन्यसेद तथा पवर्गपूर्वं तु शुक्लं सोमं भ्रुवोर्द्वये तवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयं सवर्गाद्यं बुधं श्यामं न्यस्य द्वक्षस्तरे बुधः तवर्गाद्यं पीतवर्णं कण्ठकूपे बृहस्पतिं तवर्गाद्यं श्वेदवर्णं कटिकायां दुभानुगवं नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् च वर्गाद्यं धूम्रवर्णं ध्यात्वा राघुं मुखे न्यसेद त्रिबीजपूर्वकश्चैवं ग्रहन्याससमीरितः तृतीयं लोकपालानां न्यासं कुर्यात् प्रयत्नतः मायादिबीजत्रयपूर्वकं सर्वसिद्धये स्वमस्तके ललाडादिदिष्वष्टर्ध्वः ह्रस्वधि आदि न् शिवशक्त्यभिधन्यासं चतुर्थे दुःसमाचरेत् शिवाञ्चक्रि संयुतान् आकारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् ब्रह्मणं दाग्नीयुक्तं वादि सान्तार्णपूर्वकम् मूलाधारे विन्यसे च चतुर्दलसमन्वितं श्रीविष्णुं राकिणीयुक्त बाहिलान्तार्णपूर्वकं स्वाधिष्ठनाभिधे चक्रे लिङ्गस्थे षड्दले न्यसे रुद्रं तुयुक्तं डादिफ्वान्तार्णपूर्वकम् चक्रे दशदले न्यस्येनाभिस्ते मणिपूरके ईश्वरं कादिष्ठान्तार्णपूर्वकं शागिनीयुतं विन्यस्य द्वाशलदले हृदयस्ते त्वना करे सदा शिवं शागिनीं च षोडशस्वरपूर्वकम् कण्ठस्थेशोडशदले विशुद्धाख्ये प्रविण्यसेद आज्ञाचक्रे परशिवम् आकिनी संयुदम्यसेद लक्षार्णपूवं भ्रूमध्यसंस्थितेदि मनोहरे तारादिपञ्चमन्यासं कुर्यात् सर्वेष्टसिद्धये अष्टौ वर्गान् स्वरद्वन्द्वपूर्वकान् बीजसंयुतान् ताराद्यान्यासपूर्वाश्च प्रयोज्या अष्टचक्रयः ताराधोग्रा महोग्रापि वज्राकाली सरस्वती कामेश्वरी च चा चामुण्डा इत्यष्टौ तारिका स्मृताः ब्रह्मचन्ध्रे ललाडे च भ्रूमध्ये कण्ठदे सतः हृदि नाभुबले मूलाधारे चेदा क्रमण्यसे क्रमान्यसेद अङ्गन्यासं तद पीठाख्यं सर्वसिद्धिदम् आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकं हृदिजालन्तरं बीजं दीर्घपूर्वं प्रवीण्यसेद ललाडे पूर्ण गीव्याख्यं कवगाद्यं न्यसेत् सुधीः उड्डीयानं च वर्गाद्यं प्रवीण्यसेद कण्ठेदु मधुरापीठं दशमयाधिकं न्यषेद सोढान्यासस्तु ताराया प्रोक्तोऽभीष्टप्रदायकः हृदि श्रीमदेकजडां तारिणीं शिरसिन्यषेद अज्रोदके शिखाम्पादु उग्रतारां तु वर्मणि महोग्रावत्सरे नेत्रे पिङ्गाग्रैकजडास्त्रके षड्रदीर्घयुक्त माया एतन्यष्टौ षडङ्गके अङ्गुष्टादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः चोडिकामुद्रायाकुल्या दिग्बन्धं देवतां स्मरन् विद्यया तारपुटया व्यापकं सप्तधाचरेद् उग्रतारं ततोऽध्याये सद्यो वादे देसिद्धिदां दयाब्धावम्बुजन्मस्थां नीलाभां दिव्यभूषणां कम्बुं कङ्कं कम कपालं च नीलाब्जं दधतीं करैः नागश्रेष्ठालङ्कृताङ्गीं रक्तनेत्रयां स्मरे दजपेलक्ष चतुष्कं हि दशांशं रक्तपद्मकैः पुनेक्षीराज्यसम्मिश्रैः सं शङ्खं संस्थाप्य सं जपेद नाजीं पश्यन् स्पृशन् गच्छन् महानिशि बलिं चरेद श्मशाने शून्यसदने देवागारे धनर्जने पर्वते दे वनमध्ये वा शवमायुह्यमन्त्रविद समरे शत्रुनिगतं यद्वा शाण्याश्रितं शिशुं विद्यां साधयतशीघ्रं साधित्वैवं प्रसिध्यति मेधाप्रज्ञाप्रभाविद्याभिृत्तिस्मृतिबुद्धयः विश्वेश्वरीति सम्प्रोक्ता पीठस्य नवशक्तयः भृगुमन्विन्दुसंयुक्तम् एकवर्त्मसरस्वती योगपीठात्मनेकार्दं पीठस्य मनुरीरितः दत्त्वा नेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् रो मायामगं ब्रह्माजडे सूर्यसदीर्घकं यक्षाधिपदये तं द्रीशोभनेदं बलिं तदः गृहयुग्मं शिवा स्वाहा बलिमं त्रोऽयमे इदः दद्या नित्यं बलिं तेन मध्यरात्रे चतुष्पथे जलदानादिकं मन्त्रे विद्यध्यादशभिस्तदः ध्रुवो वज्रोदगेवर्म फट्सप्तार्णो जलग्रहे तराध्या वह्नि जायान्दां मायालने मद तरो मायाभृगुकर्णो विशुद्धं धर्मवर्मदः सर्वपानि शाम्यन्दे छेदोनेत्रयुतयुतं जलं कल्पान्धनयनस्वाहामन्त्र आचमने मदः ध्रुवो मणिधरीत्यन्दे वग्रण्यक्षियुधामृदिः खरिविद्यायुग्रिजस्व सर्ववान्दे भगोब्जवान् कारिण्यन्ते दीर्घवर्मास्त्रं वह्निप्रियान्तिमः त्रयोविंशतिवर्णात्मा शिखाय बन्धने मनुः प्रणवो रक्षयुगलं दीर्घवर्माश्रणद्वयं न वार्णेनामुनां मन्त्रीकुर्याद्भूमिविशोधनं नारान्धे सर्वविघ्नानुसारयेदि पदं ततः पुं फट् स्वाहा गुणेन्द्वर्णो मनो विघ्ननिवारणं मायाबीजं जया पुष्प निपं नाभौ विचिन्तयेद् तदुद्धेनाग्निनादेहं दाहेत् साधस्वपात्मनां तराबीजं सुवर्णाभं चिन्तयेद् हृदिमन्त्रविद पवनेन तदुद्धेन पापभस्मक्षिपेद् भुवि तुरीयं चन्द्र कुन्ताभं बीजम् ज्ञात्वा लाटतः तदुद्ध सुधयादेहं स्वयं वै देवतानिभम् अनयाभूतशुद्ध्यादुदेवी सादृश्यमाप्नुयाद तारोऽनन्दो भगुःकर्णो पद्मनाभयुधो बलि के वज्ररेखे क्रोधाग्यं बीजं पावकवल्लभा अमुना द्वादशार्णेन रजयन्मण्डलं शुभम् रो यथा गदा निद्रा स दृक्षेक भृगुर्विषं सदीर्घ स्मृतिरौ साक्षौ महाकालो भवान्विदः क्रोधोऽस्त्रमनुवर्णोऽयं मनु पुष्पादिशोधने तारपाशपरस्वः पञ्चार्णश्चित्तशोधने मनबोधसम्प्रोक्ता अर्ध्यस्थापनमुच्यते ुग्भ्यां मासदो मायाभुवं संसृज्य संसृज्य भूगृहं पुत्रं त्रिकोणसंयुक्तं कुर्यान् मण्डलमन्त्रतः ये जे तत्र धारशक्तिं वह्निमण्डलमभ्यगां वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेद वामकर्णेन्द्रियुक् टं तेन विपाय सा प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीं तु युधं पठेद ततोऽर्चयेन्महाशङ्घं जपन्मन्त्रचतुष्टयं दीर्घत्रयान्विता माया काली सृष्टिस्सदीर्घसः प्रतिमासं युधमासं यवनं हृदयं तदः एकाधसार्णप्रथमो महाशङ्घार्चने मनुः हंसो हरि भुजङ्गेश युक्तो दीर्घन्त्रयेन्दु युक्क तारिण्यन्दे कपालाय नमोन्दो द्वादशाक्षरः स्वं दीर्घत्रयमन्वाढ्य मेषो वामदगन्विदः लोकपालाय हृदयं तृतीयोऽयं शिवाक्षरः मायास्त्रीबीजमर्दैद्युं स्वं स्वर्गादिमः पालाय सर्वधाराय सर्वसर्वोद्भवस्तथा सर्वशुद्धिमयश्चेदि सर्वा ङेन्ता सर्वासुरान्तिकं रुधिरारधिदीर्घा च वायुशुभ्रानिलसुरा भाजनाया भगीसत्या विकपालाय तृण्मनुः तो द्योरसे सुवर्णाय महाशङ्खप्रभूजने न वार्कमण्डलं चेष्ट्वा सलिलं मूलमन्त्रतः प्रपूजयेत् सुधा बुद्ध्या गन्धपुष्पाक्षतादिभिः मुद्रां चन्द्रमण्डलं वाक्सस्य पत्मा गगने रेफानुग्रहबिन्दुयुक मूलमन्त्रो विबध्वं अष्टकृत्वो मुनो मन्त्री अष्ट कृत्वो मुना प्रयदो जलं मायया मदिशं क्षिक्त्वा कं योनिं च प्रदर्शयेत् तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेद् पूर्वोक्तं पूजयेत्त्वेन मूलेनादप्रदर्पयेद् तर्जनो मध्यमानामा कनिष्ठाभिर्महेश्वरीं साङ्गुष्ठानिश्चतुर्वारं महाशङ्घस्थिरे जले रें फ मनुविन्द्वाढ्यां भृगु मन्विन्दुयाक् भृगु मन्विन्दुयुक्तया भ्रुवाद्येन नमोन्देन तर्प्यादानं त भैरवं तदस्तेनर्थ येन प्रोक्षेत् पूजनसाधनं यो मिमुद्रां प्रदर्श्याभिप्रणमेद् भवतारिणीं विधानमर्के सम्प्रोक्तं सर्वसिद्धिप्रदायकं पूर्वोक्ते पूजयत् पीठे पद्मे षट्कोणकर्णिके धरा गृहा हृदे रम्ये देवीं रम्योपचारकैः महीगृहे चतुर्दिक्षु गणेशादीन् प्रपूजयेद पाशाङ्कुशौ कपालं च त्रिशूलं दधदं करैः अलङ्कारजयोपेदं गणेशं प्रार्थमर्चयेद् कपालशूले हस्ताभ्यां दधतं सर्पभूषणं स्वयूथवेष्टितं रम्यं वडुगं दक्षिणेऽर्चयेद् अशीशूलकपालानि डमरुं दधतं करैः कृष्णं दिगम्बरं क्रूरं क्षेत्रपालं च पश्चिमे कपालं डमरुं वाशं लिङ्गं शं बिभ्रदीं अध्याकन्या रक्तवस्त्रा योगिनीरुतरे यजेद अक्षोभ्यम् प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिम् शुभम् अक्षोभ्यम् वस्त्रपुष्पम् च प्रदीक्षानवल्लभा अक्षोभ्यपूजने मन्त्रषट्को गकम् वैराजनम् चामिताभम् पद्मनाभिभिधम् तथा शङ्कम् दिग्दलेषु प्रपूजये द लाभकमानकं चैव पाण्डुरान् तारकाम् तथा विदिग्गदाब्जपत्रेषु पूजये दिष्टसिद्धये बिन्दूनामादिवर्णाद्यासं बुद्ध्यं तास्तथाभिथाः व्रजपुष्पम् प्रदीकाग्निप्रियान्ता प्रणवादिकाः वैराचनादिपूजायां मनवपरिकीर्तितः भूतरश्च दुर्द्वार्षु पद्मान्तकयमान्तकौ विध्यान्तकाभिधपश्चान्नरान्तक इमान्यजेद चक्रादीं शैव वज्रादीन् प्रजपेत् तदनन्तरम् एवं सम्पूजयन् देवीं पाण्डित्यं धनमद्भुतं पुत्रान् पौत्रान् शुभं कीर्तिं लपदे जनपश्यदाम् रो माया श्रीमदकजडे नीलसरस्वती महोप्रतारे देवासम्नेत्रो गदयुक्मकं सर्वदेव पिशाकर्म दीर्घोऽग्रिर्मन्मस अभ्रगो मम जाड्यं च चेद् यद्विदयं रमा द्वि पञ्चाशल्लिपिर्मनुः अनेन नित्यं पूज तिन्वकं देव्यै बलिं हरेद एवं सिद्धे मनो मन्त्री प्रयोगान्विदधाधिज जादमात्रस्य बालस्य दिवसत्रदया दधः जिह्वायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकय सुवर्णकृतय यद्वा मन्त्री गेष्ठं मेऽब्धे बालोऽपि जायते कविरद्भुदं पधापरैरजेयोऽपि भूपसङ्घैर्धनार्चितः उपरागे ददानीव नरदारुसरोजले निर्माया कीलकं तेन तैलमध्वमृतैर्लिखेद सरोजिनीदले मन्त्रं व्येष्ठयेन्मातृकाङ्क्षरैः निकायतदलं कुण्डे चतुरस्रे समे खले संस्थाप्य पावकं तत्र जुहूयान्मनुनां मुना सहस्रं रक्तपद्मानां धेनु दुग्धजलाप्लुदं होमा देवीविधैरत्नै फलैरपि बलिं करेत बलिं मन्त्रेण विधिवद् बलिं मन्त्रप्रकाश्यते तारपद्मे युगतन्द्री वियद्दीर्घं च अत्रिर अत्रिर्वृषभगारूढो वदत् पदं। चण्डीषाढ्यो निलस्वाहा षोडशार्णो बलिर्मनुः ततो निशीथे जबलिं पूर्वोक्तमनुनाहरेद एवं कृते पण्डितानां सज्जयी कविराड् भवेद निवासो भारती लक्ष्म्योऽर्जनतारञ्जनक्षमः शाभिजक्त्या यो मन्त्रिरोचनं मस्तके धरेद यं यं पश्यति तस्याः स्मशानां कारम आशृत्य पूर्वायां कुजवासरे तेन मन्त्रेण संवेष्ट्य निबद्धम् रक्ततन्दुभिः शताभिजप्तमूलन निक्षिपे द्वैरिवेश्मनि उच्चाटयति सप्ताहा स कुदुम्बान्विरोधिनः कुदु क्षीराढ्यया निशामन्त्रं लिखित्वा पौरुषेस्तनि रविवारे निषिधिन्यसहस्रमभिमन्त्रयेत् तत्क्षिप्तं शत्रुसदने मण्डलाद्भ्रंशकं भवेत् क्षेत्रे सस्य हान्यो जवहृत्तुरमालयेद षट्कोणान्तर्लिकेन्मूलं साध्यार्णं केशरेश्वरैः बाह्येष्टवर्गयुक्पत्रं पद्मभूमिपरावृतं यन्द्रं भोज्ये जहुरसैर्लिकेत् पूताम्बरावृतं पट्टसूत्रेण सन्नद्धं शिशुकण्ठगदं ध्रुवं बोधभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् नृणां दक्षिणवासुस्थं निर्धनानाम् धनप्रदम् ज्ञानदम् ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणम् नाम पञ्चाशीतितमोऽध्यायः ओम्